अथ सप्त त्रिंशत् सर्गः सा सीता वचनम् श्रुत्वा पूर्णचन्द्रनिभानना हनुमन्तमुवाचेदम् धर्मार्थसहितम् वचः अमृतम् विषसम्पृक्तम् त्वया वानराभाषितम् यच्च नान्यमना यच्च शोकपरायणः ऐश्वर्ये वासु विस्तीर्णे व्यसने वासुदारुणे रज्ज्वेव पुरुषम् बद्ध्वा कृतान्तः परिकर्षति विधिर्नो नमसंहार्यः प्राणिनाम् प्लवगोत्तमा सौमित्रिम् माम् च रामम् च पारं पश्य मोहितान् शोकस्यास्य प्लवमानः परिक्रान्तो हतनौ सागरे यथा राक्षसानाम् वधम् कृत्वा चोदयित्वा च रावणम् लङ्कामुन्मथिताम् कृत्वा कदा द्रक्ष्यति माम् पतिः स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते मम जीवितम् वर्तते दशमो द्वौ तु शेषौ प्लवम् गमा रावणेन यः कृतो मम विभीषणेन च भ्रात्रा मम निर्यातनम् प्रति अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् मम प्रतिप्रदानम् हि रावणस्य न रोचते रावणम् मार्गते सङ्ख्ये मृत्युः कालवशम् गतम् ज्येष्ठा कन्याकला नाम तया ममैतदाख्यातम् मात्रा प्रहितया स्वयम् अविंध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः धृतिमान् शीलवान् वृद्धो रावणस्य सुसम्मतः रामात्क्षयमनुप्राप्तम् रक्षसाम् प्रत्यचोदयत् न च तस्य स दुष्टात्मा शृणोति वचनम् हितम् आशंसेयम् हरिश्रेष्ठक्षिप्रम् प्राप्स्यते पतिः अन्तरात्माहि मे शुद्धस्तस्मिंश्च बहवो गुणाः उत्साहः पौरुषम् सत्त्वमानृशंस्यम् कृतज्ञता विक्रमश्च प्रभावश्च सन्ति वानरराघवे चतुर्दशसहस्राणि राक्षसानाम् जघानयः जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् न शक्यस्तु लयितम् यशनैः अहम् तस्यानुभावज्ञाशक्रस्येव पुलोमजा शरजालांशुमाञ्छूरः कपे रामदिवाकरः शत्रुरक्षोमयम् तोयमुपशोषम् नयिष्यति इति सञ्जल्पमानाम् ताम् रामार्थे शोककर्षिता अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः श्रुत्वैव च वचो मह्यम् क्षिप्रमेष्यति राघवः छमोम् प्रकर्षन् महतीम् हर्यक्षरणसङ्कुलाम् अथ वा मोचयिष्यामि त्वामद्यैव सराक्षसात् अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते त्वाम् तु पृष्ठगताम् गत्वा सागरम् शक्तिरस्ति मे वोढुम् लङ्कामपि सरावणाम् अहम् प्रस्रवणस्थाय राघवायाद्य पयिष्यामि शक्राय हव्यम् हुतमिवानलः द्रक्ष्यस्यद्यैव वैदेहि राघवम् सह लक्ष्मणम् व्यवसाय समायुक्तम् विष्णुम् दैत्यवधे यथा त्वद्दर्शनकृतोत्साहमाश्रमस्थम् महाबलम् पुरन्दरमिवासीनम् नगराजस्य मूर्धनि पृष्ठमारोह मे योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी कथयन्तीव शशिना सङ्गमिष्यसि रोहिणी मत्पृष्ठमधिरोह त्वम् तराकाशम् महार्णवम् न हि मे सम्प्रयातस्य त्वामितो शक्ता सर्वे लङ्कानिवासिनः यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् यास्यामि पश्य वै देहि त्वामुद्यम्य विहायसम् मैथिली तु हरिः श्रेष्ठा श्रुत्वा वचनमद्भुतम् हर्षविस्मितसर्वाङ्गी हनूमन्तमथा ब्रवीत् हनूमन्दूरमध्वानम् माम् नेतुमिच्छसि तदेव खलु ते मन्ये कपित्वम् मामितो नेतुमिच्छसि सकाशम् मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभा सीतायास्तु वच श्रुत्वा हनूमान्मारुतात्मजः चिन्तयामास लक्ष्मी वा नवम् परिभवम् कृतम् न मे जानाति सत्त्वम् वा प्रभावम् वासिते क्षणा तस्मात् पश्यतु वैदेही यद्रूपम् मम कामतः इति सञ्चिन्त्य हनुमांस्तदा प्लवकसत्तमः दर्शयामासीताया स्वरूपमरिमर्दनः स तस्मात्पादपाद्धीमानाप्लुत्यप्लवगर्षभः ततो वर्धितुमारेभे सीता प्रत्ययकारणात् मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः अग्रतोऽव्यवतस्थे च हरिः पर्वतसङ्काशस्ताम्रभक्त्रो महाबलः वज्रदम् शृणखो भीमो वैदेहीमिदमब्रवीत् सपर्वतवनोद्देशाम् साट्टप्राकारतोरणाम् लङ्कामिमांसनाथाम् वा नयितुम् शक्तिरस्ति मे तदवस्थाप्यताम् बुद्धिरलम् देवि विकाङ्क्षया विशोकम् कुरु वैदेहि राघवम् सह लक्ष्मणम् तम् दृष्ट्वा चल सङ्काशमुवाच जनकात्मजा पद्मपत्रविशालाक्षी मारुतस्यौरसंस्कृतम् तव सत्त्वम् बलम् चैव विजानामि महाकपे वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम् प्राकृतोऽन्यः कथम् चेमाम् भूमिमागन्तुमर्हति उदधेर प्रमेयस्य पारम् वानरयूथप जानामि गमने शक्तिम् नयने चापि ते मम अवश्यम् सम्प्रधार्याशु कार्यसिद्धिरिवात्मनः अयुक्तम् तु कपि श्रेष्ठमया गन्तुम् त्वया सह वायुवेगसवेगस्य वेगो माम् मोहयेत्तव मा अहमाकाशमासक्ता उपर्युपरि सागरम् प्रपदेयम् हिते पृष्ठात् भूयो वेगेन गच्छतः पतिता सागरे चाहन्तिमिनक्रझषा कुले भवेयमाशु विवशा यादसामन्नमुत्तमम् न च शक्ष्ये त्वया सार्धम् गन्तुम् शत्रुविनाशना कलत्रवति सन्देहस्त्वयि स्यादप्यसंशयम् ह्रियमाणाम् दृष्ट्वा राक्षसा भीमविक्रमाः अनुगच्छेयुरादिष्टा दुरात्मना तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः भवेस्त्वम् संशयम् प्राप्तो मया वीरकलत्रवान् सा युधा बहवो व्योम् निराक्षसास्त्वम् निरायुधः कथम् शक्ष्यसि संज्ञातुम् माम् चैव परिरक्षितुम् युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः प्रपतेयम् हिते पृष्ठाद्भयार्ता कपि सत्तमा अथ रक्षांसि भीमानि महान्ति बलवन्ति च कथञ्चित् साम् पराये त्वाम् जयेयुः कपि सत्तमा अथ वा युध्यमानस्य पतेयम् विमुखस्य पते च गृहीत्वा माम् नयेयुः पापराक्षसाः माम् वा हरेयुस्त्वद्धस्ताद्विषसेयुरथापि वा अनवस्थौ हि दृश्येते युद्धे जय अहम् वापि विपद्येयं रक्षो त्वत्प्रयत्नो हरिः श्रेष्ठ भवेन्निष्फल एव तु कामम् त्वमपि पर्याप्तो निहन्त्वम् सर्वराक्षसान् राघवस्य यशो हीये त्वया शस्तैस्त्वराक्षसैः अथवादाय रक्षाम् सिन्यसे यः यत्र तेनाभिजानीयुर्हरयो नापि राघवः आरम्भस्तु मदर्थोऽयम् ततस्तव निरर्थकः त्वयाहि हि सह रामस्य महानागमने गुणः मयि जीवितमायत्तम् राघवस्यामि तौ जसः भ्रातॄणाम् च महाबाहो तव राजकुलस्य च तौ निराशौ मदर्थम् च शोकसन्तापकर्षितौ सः सर्वर्क्षहरिभिः त्यक्ष्यतः प्राणसङ्ग्रहम् भर्तुर्भक्तिम् पुरस्कृत्य रामादन्यस्य वानर नाहम् स्प्रष्टुम् स्वतो गात्रमिच्छेयम् वानरोत्तमा यदहम् गात्र रावणस्य गता अनीशा किम् करिष्यामि विनाथा विवशा यदि रामो दशग्रीवमिह हत्वा स मामितो गृह्य गच्छेत तत्तस्य सदृशम् भवेत श्रुताश्च दृष्टा मया पराक्रमा महात्मनस्तस्य रणमर्दिनः न देव गन्धर्व भुजङ्गराक्षसा भवन्ति रामेण समाहि संयुगे समीक्ष्यतम् संयति चित्तकार्मुकम् महाबलम् वासवतुल्य विक्रमम् स लक्ष्मणम् कोविष हेतराघवम् हुताशनम् दीप्तमिवानिलेरितम् स लक्ष्मणम् राघवमाजिमर्दनम् दिशा गजम् मत्तमिव व्यवस्थितम् सहेत को वानर मुख्य संयुगे युगान्त सूर्य प्रतिमम् शरार्चिषम् समेकपि श्रेष्ठ चिराय रामम् प्रतिशोकर्षिताम् कुरुष्व माम् वानरवीरहर्षिताम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः